स्तुतिशतकम् पाण्डित्यम् परमेश्वरी स्तु नैवाश्रयन्ते गिरा वैरिञ्चान्यपि गुम्पनानि विगलत् गर्वाणि शर्वाणि ते स्तोतुम् त्वाम् परिपुल्लनीलनः स्यामाक्षि कामाक्षि माम् वाचालीकुरुते तथापि तापिञ्च तबगद्विषे तनुभृताम् दारिद्र्यमुद्रद्विषे संसाराक्यतमो मुषे पुररिपो वामाङ्कसीमाजुषे कम्पातीरमुपेयुष कवयताम् जिग्वा कुटीम् जग्मुषे विश्वत्राणपुषे नमोस्को सततम् तस्मै परञ्ज्योतिषे ये सन्ध्यारुणयन्ति शङ्करझटा कान्तारसन्तार्भकम् सिन्धूरन्ति शये पुरन्तरवधू सीमन्तसीमान्तरे पुण्यं ये परिपक्वयन्ति भजता काञ्चीपुरं माममी पायासु परमेश्वरप्रणयिने पादोद्भव पांसवाः कामाडम्भरपूरया सशिरु च कम्रस्मितानं द्वि कामारे अनुरागसिन्धुमधिकम् कल्लोलितं तन्वती कामाक्षीति समस्तसज्जननुता कल्याणदाद्री नृणा कारुण्याकुलमानसा भगवते कम्पातटे जृम्भते कामाक्षीणपराक्रमप्रकटनं सम्भावयन्तीदृशा ्यामाक्षी रसहोतरस्मितरुचे प्रक्षालिता वामाक्षी जनमौलिभूषणमणि वाचाम् परा देवता कामाक्षी विभाति कापि करुणा कम्पतटिं यास्तटे त्रिभुवने पुण्यात्मनामानने सीमाशून्यकवित्ववर्षजननी या कापि काधम्बिनी मारातीमनो विमोहनविधौ काचित् धली कामाक्षा करुणा कटाक्षलहरी का कामाय मे कल्पताम् प्रौढद्वान्तकथम्भके कुमुदिनी दर्शयन् ज्योत्स्ना सङ्गमनेऽपि मिश्रं समुद्भावयन् कालिन्ती लहरी दशाम् कम्राम् नभस्यद्बुधाम् कस्मिन् नेत्रहोत्सवो विजयते काञ्चीपुरे शूलिनः तन्द्राहीनतमालनीलसुषमै तारुण्यलीलागृहैः तारानादकिशोरलाञ्छितकषे ताम्रारविन्ते क्षणैः मातः संश्रयताम् दमे कम्पातीरशरे घनस्तनभरै पुण्याङ्कुरैशाङ्करैः नित्यम् निच्चलतामुपेत्यमरुताम् रक्षाविधिम् ते पुष्णति तेजः सञ्चयपाटवेन किरणान् उष्णद्युतेर्मोष्णती काञ्चीतेश कदा विदीप्तिजननी विश्वान्तरे जृम्भते काचिच्चित् प्रमखो स्मृतापि तमसा निर्वापिक दीपिक कान्तै केशरुचांशयै भ्रमरितम् मन्दस्मितै पुष्पितम् कान्त्या पल्लवितम् तथैव पधयो नेत्रविशापत्रितम् विदधति कल्याणजन्मस्थली काञ्चीमद्य महामणिर्विजयते काचित् कृपा कन्दली समान कान्तिवधना नाकातिराजस्तुता कुर्वती सुरधुनी नीकाशवाग्वैभवम् श्रीकाञ्चीनकरीविकाररसिका शोका सता एका पशुपते आकारिणी राजते जाता शीतलशैलतस्सुकृतिनाम् दृश्या परम् देहिनाम् लोकानां क्षणमात्रसंस्मरणथ सन्तपविश्चेतिनी आश्चर्यम् भगुकेलनम् वितनुते नैश्चल्यम् आभिव्रती कम्पाया तटसीम्नि कापि तटिनी कारुण्यभादोमयी ऐक्यम् येन विरश्यते हरतनो दम्भावपुम्भाविके रेखा यत्कषसीम्नि शेखर नैशाकरी नैषाकरी गाहते औन्नत्यम् परमेति येन स महान् मेनासकर् कम्पातीरविहारिणा सचरणा तेनैव दाम्ना वयम् अक्ष्णोश्च स्तनयो श्रियश्रवणयो बाह्वो च मूलम् स्पृशन् उत्तंशेन मुखेन च प्रतिदिनम् द्रोह्यन् पयो जन्मनि माधुर्येण गिराम् गतेन मृदुना हंसाङ्गनाम् श्वेपयन् काञ्चीशीं निशकास्ति कोऽपि कविता सन्तानबीजाङ्कुरः कण्ठम् शान्द्रमसम्वतम् समनिशम् काञ्चीपुरे केलनम् काला यच्च वितस्करीम् तनुरुचिम् कर्णे जपे लोचने तारुण्योष्मनकम् जङ्गास्पृशम् कुन्तलम् भाग्यम् देशिकसञ्चितम् मम कथा सम्पादयेदम्बिगे तन्वानम् निजकेलिसौधशरणि नैसर्गीणाम् गिराम् केदारम् कविमल्लसोक्तिलहरे सश्च श्रियां शाश्वतम् अंहो वञ्चन चुञ्चु किञ्चुन भजे काञ्चीपुरीमण्डनम् पर्यायच्च विपाकशासनमणे पौष्पेशवम् पौरुषम् आलोके मुखपङ्कजे सदधी सौधाकरीं चातुरीं शोटालङ्क्रियमाणपङ्कजवने वैरागमप्रक्रिया मुग्धस्मेरमुखी गणस्तनतटी मूर्जालमद्याञ्चिता काञ्ची सीमनि कामिनी विजयते काचि जगन्मोहिनी यस्मिन्नम्ब भवत्कटाक्षरजनी मन्तेऽपि मन्तस्मित ज्योत्स्ना संस्नपिता भवत्यभिमुखी तम् प्रत्यहो देहिनम् त्राक्षामाशिकमाधुरी मदपर प्रीडाकरी वैकरी कामाक्षी स्वयमातनोत्यभिश्रुतिम् वामे क्षणे कालिन्दीजलकान्त यस्मितरुचि स्वर्पाकिनी पादसी प्रौढत्वान्तरुषस्फुटाधरमहो लौहित्यसन्ध्योतये माणिक्योपलकुण्टलांशुशिकिनी व्यामिश्रधूमश्रुयः कल्याणैकभुवक्कटाक्षसुमषा का कामाक्षि राजन्ति ते काञ्ची काञ्चि विभूक्षणमालिका कषबलशश्चन्द्र चन्द्रावतं सधर्मिणि कविकुलगिरस्रावम् श्रावमिलत्फुलकाङ्कुरा विरचितशिर कम्पा कम्पा तटे जगदम्बिका सरसवच नीशिभवन्मधुमाधुरी भरितभुवना कीर्तिर् मूर्तिर्मनो भवजित्वरी जननि मनसो कदमिव विना काञ्चीभूषे कडाक्षतरङ्गितम् भ्रमरितसरित्कूलो नीलोत्पलप्रभया आभया नत जनतमकण्डी तुण्ठीरसीम्नि विजृम्भते पाखप्रसूनचरासन प्रतिभटमनोहारी नारी मधुरवचसो मन्दस्मेरो मदङ्गजकामिनः तरुणीमजूषतापिञ्चाप तमपरिपन्दिनः कुचबरनता कुर्युर्भद्रं कुरङ्कविलोचनः कलितकरुणाकाक्षी भज कपालिमहोत्सवाः कमलसुषमाकक्ष्यारोख विसक् क्षणवीक्षणाः कुमुद सुकृतक्रीडा सोडालकुन्तलबन्धूराः रुचिररुचिभे पिञ्च श्रे प्रपञ्च न चुञ्चुवः पुरविजयिन कम्पातीरे पुरन्ति मनोरथाः कलितरथय काञ्ची लीलाविधौ कविमण्डली वचनलकरी वा सन्तीनाम् वसन्तविभुधयः कुचलविधये भूयासुर्मे कुरङ्गवे लोचनाः कुसुमविशिकारा ते अक्षणाम् कुतोहलविभ्रमाः कबलिततमस्काण्डाम् तुण्ढीरमण्डलमण्डनाः सरसिजवनीसंतानानां सन्तानाम् अरुन्धुतशेखराः नयनसरणेनेदीयांस कथानुभवन्ति मे तरुणजलक्ष्यामा शम्भो आचरम दीनम् मीनध्वजस्य मुगश्रिया सरसि जभुवो यानम् लानम् गतेन च मञ्जुना त्रिदच सदसामह्नम् चिह्नम् गिरा च विधन्वती तिलकयति सागम्भा धीरम् जननि भुवने शङ्क्रम् एकम् कियन्तमनेहसम् कुपुरुषकरभ्रष्टै दुष्टैतनै उधरम्भरीः तरुणकरुणे तन्द्राशून्ये तरङ्गयलोचने नमतिमयिते किञ्चेत् काञ्चीपुरी मणिदीपिके मुनिजनमनपेटी रत्नम् स्फुरत्करुणानटी विहरणकलागेखम् काञ्चीपुरी जगति जगतिमहतो मोहव्याधे नृणाम् परमौषधम् पुरहरदृश्याम् सापल्यम् मे पुरपरिञ्जृम्पदाम् मुनिजनमनो दाम्ने दाम्ने वचोमय जाग्नये हिमगिरितटप्राक्पराय क्षराय परात्मने विहरणजुषे देशे, महेश्वरलोचन त्रदय त्रतयसरसक्रीडा सौधाङ्गणाय नमो नमः मरकतरुषाम् प्रत्यादेशम् महेश्वरचक्षुषाम् अमृतलहरीपूरम् पारम् भवाग्यपयो निधेः सुचरितपलम् काञ्चिभाजो जनस्य पशेलिमम् हिमशिखरिणो वंशस्यैकम् वदन् समुपास्महे प्रणमनदिनारम्भे कम्पानती सखीतावके सरसकवि तोन्मेष पूषा सताम् समुदञ्चित प्रतिभट महाप्रौढ प्रोद्यत्कविद्वकुमुद्वती नयति तरसा निद्रा मुद्रा नगेश्वरकन्यके समितजटिमारम्भा कम्पातटी निकटीशरी निगदुरितस्तोमा सोमार्धमुद्रितकुन्तला कलितसुमनो वञ्चा पाञ्चायुती परदेवता सफलयतु मे नेत्रे गोत्रे श्वरप्रियनन्दिनी ममतु तु दिशना पीट्या जाट्यातिरेकधम् त्वया कुमुतसुषमा मैत्रीपात्रे वदंसितकुन्तलाम् जगति समितस्तंभां कम्पानी निलयामसो श्रयदिहि न्द्रा चन्द्रावतं सखधर्मिणी परिमलपरिभागोद्रेकम् पयोमुषिकाञ्चने शिखरिणि पुनर्द्वैती भावम् सशिन्यरुणातपम् अभि च जनयन् कम्भो लक्ष्मीमनम् भुनि गोप्यसौ देशे शखास्ति पराक्रमः PURADAMAYIDUVAMOT SANG STALENA RASAGNYAYA सरसकविताभाजाम् काञ्चीपुरोदरसीमया तटपरिसरैनीहाराद्रे वचोभिरकृत्रिमये किमिव न तुलामन्मच्चेतो महेश्वरी गाहते नयनयुगलीमास्माकीनां कदानुफले गृहीम् विददधिकधौ व्याकुर्वाणा गजेन्द्रसभत्क्रियाम् परकदरुषो महोचान गनस्तननमृताः सुकृतविभवा प्राञ्च काञ्चीवदंसदुरन्धराः मनसि जयस पारम्पर्यम् बाणतीतडमण्ढनम् मधुरललितम् मत्कम् सक्षूर्मनीषिमनोहरम् पुरविजयिन सर्वस्वम् तत्पुरस्कुरुते कथम् शिदिलितधमोलीलाम् नीलारविन्दलोचनाम् दगनविलसत्पालाम् करदृतलसच्चूलां कलारिशित्तिहराम् परां मनसि जगृपालीलां कलालीला शाला कविकुलवचकैरववनी सरज्जोत्स्नाधारा सशधरसि शुश्लाक्यमुकुटी पुनीतेन कम्पापुलिनतट सौहार्तरला कथा चक्षुर्मार्गम् कनकगिरिदानुष्कमहिषी नमस्तान्नम् तनकलच भारेण गुरुणा तदानेभ्य चूटाभरणम् अमृष्यन्ति शिशिरम् सदा वास्तव्येभ्य सविधभुविकम्पाक्यसरिते यशो व्यापारेभ्य सुकृतभिभवेभ्यो रतिपथेः असूयन्ती काशिन् मरकतरुचो कदम्बं शुम्भन्ति चरणनगसन्ध्रांशुपटलैः तमो मुद्रां विद्रा वयतु मम काञ्चीनिलयन हरोत्सङ्घ श्रीमन् मणिगृहमहादीपकलिका अनाद्यन्ताकाशीत् सुजननयनानन्दजननी निरुन्दाना निजरुचिविला सेर्जलमुषाम् स्मरारेस्तारल्यम् मनसि जनयन्तो स्वयमहो गलत्कम्पाशम्पा परिलसति कम्पा परिसरे स्मितरुचिषु तुण्टीरविषयम् परिष्कुर्वाणासौ परिहसितनीलोत्पलरुचिः स्तनम् प्यामानम्र स्तभगयतु मे काङ्क्षितरुम् दृशा मैशानीनाम् सुकृतपलपाण्डित्यगरिमा कृपादारोद्रोणी कृपणदिषणानाम् प्रणमता निहन्त्री सन्तापम् निगममुकुटोत्तमस्कलिका पराकाञ्चीलीला परिचयवती पर्वतसुता गिराम् नीवी देवी गिरि च परतन्त्रा विजयते कवित्वश्रीकन्थ सुकृतपरिपाटी हिम गिरेः विदात्री विश्वेषाम् विषमचरवीरध्वजपटी सखीकम्पानद्या पदहसितपादोजयुगली पुराणी पायान्न पुरमदन साम्राज्यपदभीम् दरिद्राणा मध्ये दरदलिततापिञ्च सुषमाः स्तना भोग क्लान्धा तरुण हरिणाङ्गाकिदकशाः हरा दीना विभुध मुकुटी सुम्पतपधा कदा कम्पादी रे कथयविह री वर्तुस्तेमा मम गिरा देवी मनसो नरी नर्तु वदन नर् प्रौढ़ वदनकमलेक्यलहरी शरीशर्तु प्रज्ञा जननी जडिमास्मत्जने स्वैरं जननी मये कामाक्षी करुणा क्षणा ते कामाक्षी भ्रमरसुषमाशिक्षणगुरुः कडाक्षव्याक्षेपो मम भवतु मोक्षाय विपधा नरी नर्तुस्वैरम् वचनलहरी निर्झरपुरी सरिद्वीचीनीची करणपटुरास्ये मम सत पुरस्तान्मे भूय प्रशमबरस्तान् मम रुजा प्रसारस्त्येकम्पातट विकृते सम्भादिनि दृशोः इमां दूरी कुरुतमः परिपाकं मत्कम् सपति भूतलोकम् च नयमा उतञ्चन्ती काञ्ची नगरनिलहे करुणया स्मृदधा वाग्धाटी परिगसितमाध्वी उपादत्ते मार प्रतिभट जटा जूटमुकुटी कुटीरोल्लासिन्या शतमगतटिन्या जयपठीन् श्रियं विद्याम् बुद्ध्या जननि न मताम् कीर्तिममिता सुपुत्रान् प्रार्थते तव जटिति कामाक्षि करुणा त्रिलोक्यामादिख्यम् त्रिपुरपरिपन्त्य प्रणयिनी प्रणामस्प मितदुरिते किम् न कुरुते अनस्तम्भम् स्तम्भम् गमयतुपकम्पम् प्रणमताम् सधालोलं लोलम् चिकुरजितलोलं चिकुरजितलोलम् बनिकरम् गिराम् दूरम् स्मेरम् धृतसशिकिचोरम् पशुपते दृशाम् भोग्यम् योग्यम् दुहिनगिरिभाग्यम् विजयते कनस्यामान् कामान्तकमकिशिकामाक्षि मतुरान् दृशान् पादानि अमृतजलशीताननुपमान् भवोत्पाते भीते मयि वितरनाधे दृढभवन् मनश्चोके मूके हिमगिरिपताके करुणयाम् नतानाम् मन्दानाम् भवनि कलभन्धाकुलधिया महाद्यम् वृन्दानाम् अभिलषितळन्ता नलतिकां। चरन्तीम् कम्पायास्तटभुवि सवित्रीम् त्रिजगताम् स्मरामस्ताम् नित्यम् स्मरमदनजीवातु कलिकाम् पराविद्याहृत्या श्रितमदनविद्यामरकत प्रभाला लीला परवशितसोलायुधमनाः तमपूरम् दूरम् चरणनदपौरन्धरपुरी मृगाक्षी कामाक्षी कमलतरलाक्षी नयतु मे अहन्ताख्यामत्कम् कबलयति हाहन्त हरिणी हडात् संविद्रूपम् हरमगिषिसस्याङ्कुरमसौ कटाक्षव्याक्षेप प्रकटहरिपाषाणपठलैः इवाम्बुच्चैरुच्चाट्य झटिते कामाक्षि कृपया बुधे वा मूके वा कटाक्ष कामाक्षी प्रकटजडिमाक्षोधपटिमाम् नास्मै करमुकुलसूटालमुकुट नमो वाहम् ब्रूयु नमुषि पश्याम प्रकटऋषिणीवारकमणि प्रभासद्रीशीना प्रदलितषडाधा कमलाम् शरन्तिम् सौषुम्ने पदि परपतेन्तु प्रविगलद् सुधार्द्राम् कामाक्षी परिणत परञ्चोतिद्रुतयाम् जम्भरादिप्रभृतिमुकुटी पाधयो पीठयन्ति कुम्भान् वाचाम्बुधजनकृतान् स्वैरमारामयन्ति सम्बालक्ष्मीम् वणिगणरुचा पाडपान् प्रापयन्ति कम्पातीरे कविपरिषधाम् जृम्बते भाग्यसीमा चन्द्राभीठाम् चदुरवधनां, सञ्चला पाङ्गलीला कुन्द स्मेरां कुचपरनतां कुन्दलोद्धूतभृङ्गा माराराते मदनशिखिनम् मांसलं दीपयन्ती कामाक्षीं तां कविकुलगिरां कल्पवल्लीम् उपासे कालां कालाम्भूतप्रकरसुषमाम् कांति कान्तिभिस्तर्जयन्ती कल्याणानाम् उदयसरणे कल्पवल्ली कवीनाम् कंतर्पारे प्रसयसहरी कल्मक्षाणाम् निहन्त्री काञ्चीदेशम् तिलकयति स कापि कारुण्यसीमा ऊरीकुर्वन् उरसि जतटे चातुरीम् भूधराणाम् पाधो जानम् नयनयुगले पारिपन्द्यम् विदन्वन् कम्पातीरे विहरदिरुषा भोगयन् मेघशैली को गद्वेषम् शिरसि कलयन् कोऽपि विद्याविशेषः काञ्चीलीला परिशयवती कापिता पिञ्चलक्ष्मीर्जाड्यारण्ये हुतव हशिका जन्मभूमि कृपायाः मा गन्धश्रीमधुरकविता चादुरीकोकिलानाम् मार्गे भूयान्ममनयनयो मान्मदी कापि विद्याः े दुर्मादमरकतमयो भक्तिभाजाम्बवाब्धौ लीला लोला कुवलयमये मान्मदी वैजयंती काञ्चीभूषा पशुपदिदृशाम् कापि कालाञ्जनाली मत्कम् दुःखम् शिथिलयतु ते मञ्जुला पाङ्गलीला व्यावृण्वाना कुवलयधल प्रक्रिया वैरमुद्रा व्याकुर्वाणा मनसि ज महाराज साम्राज्यलक्ष्मीम् काञ्चीलीलाविहृतिरसिके काङ्क्षितम् न क्रियासु बन्धच्छेधे तव नियमिना भत्तदीक्षा कटाक्षाः कालाम्भोते शितरुचिधलम् कैतकम् दर्शयन्ती मध्ये सौतामिनि मधुलिहाम् मालिकाम् राजयन्ती हंसारावम् विकषकमलो मञ्जुमुल्लाय सन्ती कम्बातीरे विलसति नव कापि कारुण्यलक्ष्मीम् चित्रम् चित्रम् निजमृदुतया भर्त्सयन् पल्लवाली पुंसाम् कामान् भुविचनियतं च नियतम् पूरयन् पुण्यबाजाम् जादशैला तु जलनिते स्वैरसञ्चारशीलः काञ्चीभूषा कलयतु शिपम् कोऽपि चिन्तामणिर्मे ताम्राम्बोजम् जलत तत्र बन्धूकपुष्पम् तस्मिन् मल्ली कुसुमसुषमा तत्र वीणान्नि नादम् व्यावृण्वाना सुकृतलहरी कापि काञ्चीनगर्या ऐसा विलासम् आगारांशम् त्रिदशसदशाम् आश्रेयसातकानाम् आकाशो भर्यपिषकलयन् आलद्वन्द्वमेषाम् कम्बदीदे विकरतितराम् कामधेनो कवीनाम् मन्दस्मेरो मदननिगम प्रक्रिया आर्दीभूत अविल आतलीलालास आदस्तापूर्ण यदि कशफल रंजिता भोजशिल्मी ललितन काल्यसार काश्मल्यं न कवलयतु का सा कामकोटिकटाक्षैः का आधून् वन्द्यै तरलनयने अङ्गजीं वैजयन्तीम् आनन्दिन्यै निजबदजुषान् आतकाञ्चीपुरायै आस्माकीनम् कृतयमखिलै आगमानाम् प्रपञ्चै आराध्यायै स्पृहयति तरा मातिमायै जनन्यै दूराम् वासाम् त्रिदशसतसाम् दुःखसिन्धो रित्रम् मोहेश्वेलैक्षि तिरुहवने क्रूरधारम् कुटारम् कम्बादीर्णप्रणयिक विपि वर्णितोत्यश्चरित्रम् सान्द्यै सेवे सकलविभदाम् शाङ्करम् तत्कलत्रम् कश्मशं प्रकृतिकुटिलम् कश्मशम् प्रातिभश्री शुण्ठीरत्वम् निजभदजु शून्यतन्द्रम् दिशन्ति तुण्डीराकेमकितिविषये स्वर्णविवृष्टिप्रतार्द्री चण्डी देवी कलयति रतिम् कलयतिरते येन ख्यातो भवति स गृहे पूरुषो मे रुधन्वा यदृक्कोणे मदननिगम प्राभवम् भोपवीथी यत्प्रीत्यैव त्रिजगददिभो जुमृते किम्पशानः कंपातीरे स महान् कश्चितो जो विशेषः धन्या धन्या, धन्या गतिरिखगिराम् देवि कामाक्षियन्मे निन्द्याम् बिन्द्याम् सपति झटत कल्मषादुन्मिषन्ती भिनी मंजुरी ती वी वीणी जडि वृणुदा स्वर्धुनी स्पर्दिनी माम् यस्या हृदयकमलम् कौसुमी योगबाजा यस्यापीटी पीटी सततशिशिरा शीकरैमाकरन्तैर् यस्या पीठी श्रुतिपरिचलन् मौलिरत्नस्य काञ्ची सा सोमाभरणमहिषे साधयेत्काङ्क्षितानि एका माता सखलजगता मीयुषी ध्यानमुद्रा एकाम्रादीश्वरशरणयो एकतानाम् समिन्धे ताटङ्कोद्यन्मणिगणरुचा ताम्रकर्णप्रदेशम् तारुण्यश्रीस्तपकितधनो तापसि कापि दन्त दन्ती प्रकटनकरी दन्तिभिर्मन्दयानैः मन्दाराणाम् मदपरिणतिम् मद्नती मन्दहासैः अङ्गूराभ्याम् मनसि जतरो अङ्कितोराकुशाभ्याम् अन्धकाञ्ची स्फुरति त्रयम्बगकुटुम्बिनीं त्रिपुरसुन्दरीमिन्दिरा पुलिन्दपदि सुन्दरीं त्रिपुरभैरवीं भारतीं मदङ्गकुलनायिकां मगिषमर्धनीं मातृकां भणन्ति विबुधोत् विकृतिमेव कामाक्षिते महामुनि मनोनटी महितरम् यकम् पातटी कुटीशकविहारिणि कुटिलबोधसंहारिणि सताभवदुकामिनी भवतु कामिनि कृपातिशय शङ्करी मम विभूदये शाङ्करी जडा क्षणमवाप्यकामाक्षिते वसुच्युमधुमाधुरीम् प्रकटयन्ति पौरन्धरी विभूतिषु विटम्भना वपुषि मान्मदीम् प्रक्रियाम्नस्तनतटस्फुटस्फुरितकञ्चुली सञ्चली कृतत्रिपुरसासना सुजनशीलितो वासना दृशो शरणिमश्नुते मम कथाचीपुरा का परमयोगिना हृदयचित्कला पुष्क कवीन्द्रहृदयेशरी परिगृहीत काञ्चीपुरी निरूट करुणाजरी निखिलोकरक्षाकरी मनपदत वीयसी मदनशासनप्रेयसी मया गुणकरीयसे मम दृशोऽस्तु नेदीयसी धनेन कलजनान्न सोवामहे नचापलमयामहे, चापलमयामहे भवभयान्न दूयामहे स्थिरान्तनुमहेतराम् मनसि किम् तु काञ्जीरथ स्मरान्तककुटुम्बिनी सुरापरिजनावपुर, सुरापरिजनावपुर्मनसि जाय वैरायते विष्टदिनी कुचतटी शकली गिरी गिरशुरपयो वय तरुणि दरिद्र से कटाक्षसरण क्षण निबति तय पवित्रय जगत्यी विपुत भोध जीवा पुरत्रय विमर्तिनः पुलककञ्जुलीदायिभिः भवक्षयविचक्षणै व्यसनमोक्षणैर्वीक्षणैः निरक्षरशिरोमणिम् करुणयैव कामाक्षि माम् कदा कलितकेलना करुणयैव काञ्चीपुरे कलाय मुकुलत्विष सुभगदम्बपूर्वाङ्कुराः पयोधरपरालसा कविजनेषु धे बन्धुराः पशेलिमकृपाशरा मम पतन्ति मार्गे दृशोः अशोद्यमसलोद्भवम् हृदयनन्दनम् देहिना अनर्गमति किमपि रत्नमुद्योदते अनेन समलङ्कृता जयति शङ्करास्थली कदास्य मम मानसम् रजति पेडिका विभ्रमम् जयति नित्यमन्तः शरी भुवामविबहिश्चरी महत्पिरभरोषिता सततमेव काञ्चीपुरे ममान् वहमहं मते माहेश्वरी तमो सततमेव काञ्चीपुरे विहाररसिका परा परमसंविधुर्वीरुहे कटाक्षनिकलैदृटम् कृतयतुष्टदन्तावलम् चिरम् नयतु मामकम् त्रिपुरवैरिसीमन्तिनि त्वमेव सति चण्डिका त्वमसि देवि चामुण्डिका त्वमसि त्वमे परमात्रमसीणील शवी मी कामकोटी जया विजयावे जगदंबकि भ्रूमहे पर जननी पावती प्रणतपालिनी प्रातिप परमेश्वरी त्रिजगदाश्रिते शाश्वते त्रयम् बगकुटुम्बिनी त्रिभदशङ्किनी द्रीक्षणे त्रिशक्तिमयि वीक्षणम् मयिनि देहि कामाक्षिते मनो मधुकरोत्सवम् विदधति मनीषा जुषाम् स्वयं प्रभववैकरी विपिनवीधिकालम्बिनी अहो शिशिरता कृपा मधुरसेन कम्पातटे शराशरविधायिनी चलति कापि सिन्नञ्जरी कलावति कलापृ कलावति कलाभृतो मुकुटसीम्नि लीलावती स्पृाव महेश्वरे भुवनमोहने बाष्वती प्रभावति रमे सता महितरूपशोभावती त्वरावति परे सता गुरुकृपम्बुदारावती त्वयैव जगदम्भया भुवनमण्डलम् सूयते त्वयैव करुणाद्रया तदभिरक्षणम् नीयते त्वयैव करकोपया नयनभावके हूयते त्वयैव सति कामया जगदि सन्ततम् सद्दीयते सराचर जगन्मयीम् सकलहृन्मयीम् चिन्मयी गुणत्रयमयीम् जग त्रयमयीं तृधामामयी प्रभा परमयीं सदा दशदिशां निशाहर्मयी परां सततसन्मयी मनसि कामकोटिं जय भजे जयज्जगदम्बिके हरकुटुम्बिने वक् रुषा जितशरदमम्बुजे जनविडम्बिनीकेशरुषा परमवलम्बनम् भवा समादृतकाञ्चीपुरे मम कदसंविधो जडिमरम्बरदाण्डविनः भुवनजननि भूषा भूतचन्द्रे नमस्ते कलुषचमनिकम्बाधीरगेहे नमस्ते निगमवेद्ये नित्यरूपे नमस्ते परशिवमयि पाश शेतहस्ते नमस्ते क्वणत्काञ्ची पुरमणि विभञ्चीलयझरी चिरकम्पा कम्पा वसतिरनुकम्पा जलनितिः गणश्यामा श्यामा कठिनकुशी मामनसि मे मृगाक्षी कामाक्षी अरनडनसाक्षी विहरताम् समर विजय विजयकोटी साधकन धाठी नुद पिपेटी मुख्यका दवाठी मुनिनुदिपाटी परशिव वधूठी पादुमान् कामकोटी इवम् परवरप्रथम् प्रकृतिवेशलम् पावनम् परापरचिता कृते प्रकटनप्रीधिपायिथम् स्तवम् पठति नित्यधा मनसि भावयन्नम् विघा जपैरलमलम् मघै रधिकदेकसंशोक्षणैः सर्वमङ्गलमाङ्गल्ये शिवे शर्वार्थसाधे शरण्ये त्रयम्बखके गौरे नारायणि नमोऽस्तु